शिवाभ्या नवयौवनाभ्या परस्पराश्लिष्टपुर्धराभ्या नगेन्द्रकन्या वृषकेतनाभ्या नमो नमः शङ्कर पार्वतीभ्यमो नमः शङ्कर नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्या नारायणेनार्चितपादुकाभ्या नमो नमः शङ्कर नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्णिन्द्रसुपूजिताभ्या विभूतिपाटीरविलेपनाभ्या नमो नमः शङ्कर पार्वतीभ्या नमः शिवाभ्या जगदीश्वराभ्या जगत्पतिभ्यां जय विग्रहाभ्या जम्भारिमुख्यैरभिवन्दिताभ्या नमो नमः शङ्कर नमः शिवाभ्यां परमौषदाभ्यां पञ्चाक्षरी पञ्जररञ्जिताभ्या प्रपञ्चसृष्टिस्थितिसंहृतीभ्या नमो नमः शङ्कर पार्वतीभ्याम् नमः शिवाभ्या अतिसुन्दराभ्या अत्यन्तमासक्तहृदम्बुजाभ्या हशेषलोकैकहितङ्कराभ्या नमो नमः शङ्कर नमः शिवाभ्या कलिनाशनाभ्या कन्ताळ कल्याणवपुर्धराभ्या कैलासशैलस्थित देवताभ्या नमो नमः शङ्कर पार्वतीभ्या नमः शिवाभ्या अशुभापहाभ्या अशेषलोकैकविशेषिताभ्या हकुण्ठिताभ्यां श्रुतिसंस्तुताभ्या नमो नमः शङ्करपार्वतीभ्या नमः शिवाभ्या रचिताभयाभ्या रवीन्दुवैश्वानरलोचनाभ्या राकाशशाङ्काभमुखाम्बुजाभ्यां नमो नमः शङ्कर पार्वतीभ्या नम शिवाभ्यां जनमोहनाभ्या जरामृतित्रासविवर्जिताभ्या जनार्दनाब्जोद्भवपूजिताभ्या नमो नमः शङ्करपार्वतीभ्या नमः शिवाभ्या विषमेक्षणाभ्यां बिल्श्च मल्लिकदामभृद्भ्यां शोभावती शान्तवतीश्वराभ्यां नमो नमः शङ्कर नमः शिवाभ्या पशुपालकाभ्या जगत्त्रैरक्षणबन्धृद्भ्या समस्तदेवासुरपूजिताभ्या नमो नम शङ्कर पार्वतीभ्या स्तोत्रं त्रिसन्ध्यम् शिवपार्वतीभ्या भक्त्या पठे द्वादशकं नरो यः स सर्वसौभाग्यफलानि भुङ्क्ते शतायुरङ्क्ते शिवलोकमेति शतायुरङ्क्ते शिवलोकमेति